g श्वरी शरणं शरणं सर्वेश्वरी श्रीदेवी भगवति ओमिन् देवी गुणवतिये शरणं शरणं शरणं शरणं श्रीरञ्जनी श्रीलक्ष्मि सुभलक्ष्मि ओमिं लक्ष्मी गजलक्ष्मी शरणं शरणं जयलक्ष्मी श्रीदेवि मन्दाकिनी ओमे देवी दाक्षायिणी शरणं शरणं नारायणी शरणं शरणं राजकाणि रि मोलि सरस्वती मणि ारे नारायणी नारायणाने नारायणानरु अम्म अने दूरु शरणं महेश्वरी शरणं शरणं महदेश्वरि शरणं शरणं सर्वेश्वरी शरणं शरणं सरस्वती